मार्कण्डेयपुराणम् अध्यायं 14. पुत्र उवाच इति पृष्टस्तदा तेन शृण्वदाम्नो महात्मना उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः यमकिङ्कर उवाच महाराज यथा तथ्तन्ना संशय किल्पं पापम भवदास्त वै दर्भो तवया पत्नी पीवरीनामनामदुमु्यदुरा सुशोभनायां कैकेशक्न तदोभवान्तु व्यतिक्रा नरकोदृशकाल यज्यपादमेक्ष प्रजापति बीज पदमेक्ष यस्तमुल्लङ्घ्यधर्मात्मा कामेश्वासक्रिमान् भवेद् स तु पित्र्यात् ऋणात् पापमवाप्य नरकं पदेद् पापं नान्यत्किञ्चन विद्यते तदे हि गच्छ पुण्यानामुपभोगाय पार्थिव राजोवाच यास्यामि देवानुचर यत्र त्वं किञ्चित् पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि वज्रतुण्डास्त्वमीकाकाः पुंसां नयनहारिणः पुनः पुनश्च नेत्राणि तद्वदेशां किं कर्म कृतवन्तश्च कथयै तज्जुगुप्सितं हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् परपत्रेण पाठ्यन्ते कस्मादेति दुःखिताः करम्भवालुकास्वेदे पच्यन्ते तैलगोचराः अयोमुखैःखगैश्चैदे कृष्यन्ते किंविधावद विश्रुलिष्टदेहबन्धार्तिमहारावविराविणः अयश्चञ्चुनिपादेन सर्वाङ्गक्षददुःखिताः किमेदे निष्टकर्तारस्तुभ्यन्ते हर्निशं नराः वेदाश्चान्याश्च दृश्यन्ते यादनाः पापकर्मिणां येन कर्मविपाकेण तन्ममाशेषतो वद यमकिंकर उवाच यन्मां पृच्छसि भूपाल पापकर्मफलोदयं तत्तेकं सम्प्रवक्ष्यामि सङ्क्षेपेण यथा तथं पुण्या पुण्ये हि पुरुषः पर्यायेण समश्नते भुञ्जतश्चक्षयं यादि पापं पुण्यमथापि वा न तु भोगा हृदे पुण्यं किञ्चिद्वा कर्ममानवं पापकं वा पुनात्याशुक्षयो भोगात् प्रजायते परित्यजति भोगाच्च पुण्या पुण्ये निबोधमे दुर्भिक्षा देवदुर्भिक्षं क्लेशात् क्लेशं भयाद्भयं स्मृतेभ्यः प्रमृदा यान्ति दरिद्राः पापकर्मिणः गतिं नानाविधां यान्ति जन्धवः कर्मबन्धनाद उत्सवादुत्सव ये स्वर्गा सुखात्खम श्रद्धाच शांता शुभकारिणकुचर दुर्गा सर्पचौरभ तो हद पापे न्छति पापी न कि परं अनेकशतसाहस्रजन्मसञ्चयसञ्चितं पुण्यापुण्यं नृणां तद्वत् सुखदुःखाङ्गुरोद्भवं यथा बीजं हि भूपाल पयांसि समवेक्षते पुण्या पुण्ये तथा कालदेशान्यकर्मकारकम् स्वल्पं पापं कृतं पुंसादेशकालोपपादितं पादन्यासकृतं दुःखं कण्ठकोद्धं प्रयच्छति तत्प्रभूततरं स्थूलं शूलकीलकसंभवं दुःखं यच्छति तद्वच्च शिरोरोगादिदुःसहम् अप्यथाशनशीतोष्णश्रमदापाधिकारकं तथान्योन्यमपेक्षन्ते पापानि फलसङ्गमे एवं महान्ति दी पपानि दीर्घरोगादिविक्रियां दी तद्वच्छस्त्राग्निकृच्छ्रार्ति बन्धनादिफलाय दी वै स्वल्पं पुण्यं शुभं गन्धं हेलयात् सम्प्रयच्छिति स्पर्शवाप्यथवा शब्दं रसं रूपमथापि वा चिराद्गुरुतरं तद्वन् महान्तमपि कालजं एवञ्च सुखदुःखानि पुण्याः पुण्योद्भवानि वै भुञ्जानोनेकसंसारसम्भवानीह तिष्ठति जादिदेशावरुद्धानि ज्ञानाज्ञानफलानि च तिष्णन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि वपुषा मनसा वाचा न कदाचित् क्वचिन्नरः अकुर्वन्पापकं कर्म पुण्यं वाप्यवतिष्ठदे यद्यत् प्राप्नोति पुरुषो दुःखं सुखमथापि वा प्रबोदमथवा स्वल्पं विक्रिया कारिचेदसः तावदा तस्य पुण्यं वा पापं वाप्यथ चेदरथ उपभोगाक्षयं यादि भुज्यमानमिवाशनं एव मेदे महापापं यादनाभिरहर्निश्यं क्षपयन्ति नराखोरं नरकान्तर्विवर्तिनः तथैव राजन्पुण्यानि स्वर्गलोके मरैः गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते देवत्वे मानुषत्वे च तिर्यत्वे च शुभाशुभम् पुण्यपापोद्भवं भुङ्क्ते सुखदुःखोपलक्षणं यत्त्वं पृच्छसि मां राजन् यादनाः पापकर्मिणाम् केन केनेदिपापेन तत्ते वक्ष्याम्यशेषतः दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः मानसेन च दुष्टेन परद्रव्यं च सस्पृहैः विलोचने पुनःपुनश्च सम्भूधि रक्ष्णोरेषां भवत्यथ यावदोऽक्षिणमेषांस्तु पापमेभिर्नृभिकृतं तावद्वर्षसहस्राणि नेत्रात्तिप्राप्नुवन्त्युद असच्चास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः यै शास्त्रमन्यथा प्रोक्तम् यैरसद्वागुदाहृता वेददेवद्विजातीनां गुरोर्निन्दा च यैकृता हरन्दितेषाम् चिह्वाश्च जायमानाः पुनः तवदो वत्सरा नेत्रे वज्रतुसुण मित्रेदा पिता पुत्र स्वजन से चाज्योपाध्यायोर्मा सुत सहचारिण भोस्े क्रुर्न स ह मे पश्य पाठ्यन्ते करपत्रेण पार्थिव परोपतापकाये च ये चाह्लादनिषेधकाः तालवृन्दानिलस्तान चन्दनो शिरहारिणः प्राणान्तिकं ददुस्तापमधुष्ठानां च ये धमाः करम्भवालुकाः संस्थास्त इमे पापभागिनः भुङ्क्ते श्राद्धन्तुयोन्यस्य नरोन्येन निमन्त्रितः दैवेप्यथवापित्र्ये सद्विथा कृष्यदे खगैः मर्माणि साधूना साधूनामसद्वाग्भिर्निकृन्तति मिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिदा ह्यः करोति च पैशून्यमन्यवागण्यधामधिः पाठ्यदेहि द्विधा जिह्वा तस्येद्धं निशितैः क्षुरैः मादा मातापित्रोर्गुरूणाञ्च ये वच्यां चक्रुरुद्धताः तैमे पूयविन्मोत्रगर्ते मज्जन्त्यधोमुखाः देवता तिथिभूतेषु भृत्येष्वभ्यागतेषु च अभुक्त वस्तु श्नन्ति तद्वत् पित्राग्निपक्षिषु दुष्टास्ते पूयनिर्यास भुजसुजीमुखास्तु ते जायन्ते गिरिवर्ष्माणः पश्यैदे यादृशा नराः एकपङ्क्त्या तु ये विप्रमथवेदरवर्णजं विषमं भोजयन्तीह विभुजस्त किमे यथा येगसार्थप्रयादं ये निःस्वमर्थार्थिनं नरम् अपास्य स्वान्नमश्नन्ति तैमे श्लेष्मभोजिनः गोब्राक्मणाघ्नयः स्पृष्ठा यैरुैर्नरेश्वर तेषामेदेग्निकुम्भेषु लेलिख्यन्त्याहिताः कराः सूर्यन्तु तारका दृष्टा यैरुच्छिष्ठैस्तु कामतः तेषाम्याम्यैर्नरैर्नेत्रेण्यस्तो वह्नि समेध्यते गावोऽग्निर्जननी विप्रोज्येष्टभ्रादापि दाश्वसा जामयो गुरवो वृद्धा यैः स्पृष्ठास्तु बद्धां लौहै पदनृ ब्रयस्ते निगढ़लौहैरग्निप्रता अंगारशिम्यस्थाठ जान पायसंशर चागो देवान्ना चा वै भुक्ता तेषां नेत्राणि पापिनां निपातितानां भूपृष्ठे उत्वृत्ताक्षि सन्तं शैः पश्य दृश्यन्ते नरैर्याम्यैर्मुखात्तदः गुरुदेवद्विजातीनां वेदानां च नराधमैः निन्दा निशामिदायैश्च पापानामभिनन्दतां तेषां मयोमयान् कीलान् अग्निवर्षान् पुनः पुनः कर्णेषु प्रेरयन्त्येते याम्या विलपदामपि यैः प्रभादेवविप्रौ को देवालयसभाशुभाः भङ्ग्वा विध्वंसमानिधा क्रोध लोभानुवर्तिभिः तेषां मे मुहुर् शस्त्रैर्मुहुर्विलपदान्त्वचः पृथक् कुर्वन्ति वैयाम्या शरीरा दधिदारुणाः गोब्राह्मणार्कमार्गेषु ेवमेहन्ति मानवाः तेषा मेधानि कृष्यन्ते बुदे नान्द्राणि वायसैः दत्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति सत्वेवं नैकथाच्छिन्नः क्षारनद्यां प्रवाह्यते स्वपोषणपरो यस्तु परतज मानव पुत्र भृत्यकल्दी बंधुवर्गमक दुर्भिक्षे संभ्रमेवा उत्कृत्य दत्तानि मुखे स्वसान्यश्नुक्ष क्षुधा शरणागतान्यस्त्यजदि लोभाद्वृत्त्युपजीविनः सोऽप्येवं यन्त्रपीठाभिः पीड्यते यमकिङ्करैः सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः ते पिष्यन्ते शिलाप्येषपकर्मिणः न्यासापहरिणो बद्धाः सर्वगात्रेषु बन्धनैः कृमिवृच्छिककाकोलैर्भुज्यन्ते हर्निशं नराः क्षुक्षामास्तृक्पदज्जिह्वा तालवो वेदनातुराः दिवा मैधुनिनः पपाः परदार भुजश्चये तथैव कण्टकैर्देर्खैरायसैः पश्य शाल्मलिम् आरोपिता विभिन्नाङ्गाः प्रभूताश्रिस्त्रवाविलाः मूषायामपि पश्यैदान्नाश्यमानान् यमानुगैः पुरुषाव्याघ्र परदारावमर्षिणः उपाध्यायमधः कृत्वा स्तब्धो योऽध्ययनं गृष्णादि गृह्णादिशिल्पमथवा सोऽप्येवं शिरसा शिलां बिभ्रत्क्लेशमवाप्नोदि जनमार्गेऽधिपीडितः क्षुक्ष्मोहर्निशम्भारपीडाव्यधितमस्तकः मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि त इमे श्लेष्मविण्मूत्र दुर्गन्धं नरकं गताः परस्परञ्च मांसानि क्षुधान्विताः भुक्तं नादिध्य पूर्वमेभैः पूर्वमे अपविद्धास्तु यैर्वेदा वहनयश्चाकिताग्निभिः तयि मे शालश्रृङ्गाग्रात् पात्यन्ते धः पुनः पुनः पुनर्भूपदयोजीर्णा यावज्जीवन्ति ये इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः पदितप्रतिग्रहादन्याद्यजनानित्यसेवनाद् पाषाणमध्यकीटत्वं नरः सततमश्नुते पश्यदो भृत्य वर्गस्य भृत्यवर्ग से मित्रणमस्था मिष्टा भुंकलदारचय वृकैर्भयंकरोपुज्य पृष्मा नृपदन यतो लोकस्य भक्षितम् अन्धोध बधिरो मोको भ्राम्यधेयं क्षुधातुरः अकृतज्ञोद्धमः पुंसामुपकारेषु वर्तताम् अयं कृतक्रो अपकारी सुदुर्मदिः तत पकुम्भे निपतति तदो यास्यति करम्भ वालुकाम् तस्मात् तदो यन्त्रान् पीडनम् असिपत्रवनं तस्मात् करपत्रेण पाडनम् कालसूत्रे तथाच्छेदमनेकाश्चैव यादनाः प्य निष्कृतिमेदस्मान्न वेत्मि कथमेष्यदि श्राद्धसङ्गतिनो विप्राः समुत्पत्त्य परस्परं दुष्टाहि निःसृतं फेनं सर्वाङ्गेभ्यः पिबन्दि वै सुवर्णस्तेयी विप्रख्रः गुरुतल्पगः अधश्चोर्ध्वं च दीप्ताग्नौ दह्यमानाः समन्ददः तिष्टन्त्यब्धसहस्राणि सुबहूनि ततः पुनः जायन्ते मानवाकुष्टक्षयरोगादिचिह्नताः मृदाः पुनश्च नरकं पुनर्जाताश्च व्याधि व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिपगोख्रोऽन्यूनतरं व्यादिनरकेधत्रिजन्मनि तथोपपादकानां च सर्वेषामिति निश्चयः नरकप्रच्युतायानि यैर्याैर्विहितपादकैः प्रयाङ्गी योनिजातानि तन्मे निगदधश्रृणु इति श्रीमार्कण्डेयपुराणे षडोपाख्यानि यमकिङ्करसंवादो नाम चतुर्दशोऽध्यायः ओ